नारदपुराणं पूर्वार्थम् अध्यायम् नैन्टि टु सूत उवाच एतच्छ्रुत्वा नारदस्तु कुमारस्य वचो मुदा पुनरप्याह सुप्रीतो जिज्ञासुश्रेय उत्तमम् नारद उवाच साधु साधु महाभाग सर्वलोकोपकारकम् महातन्त्रं त्वया प्रोक्तं सर्वतन्त्रोत्तमोत्तमम् अधुना श्रोतुमिच्छामि पुराणाख्यानमुत्तमं यस्मिन् अस्मिन् पुराणे तु यद्यदाख्यानकं मुने तत्सर्वं समाचक्ष्व सर्वज्ञस्त्वं यदो मदः सूत उवाच तत्रुत्वा वचनं विप्रा नारदस्य शुभावहम् पुराणाख्यानसम्प्रश्नम् कुमारप्रत्युवाचः सनत्कुमार उवाच ताराणाख्यानकं विप्र नानाकल्पसमुद्भवम् नानाकथा समायुक्तमद्भुतं बहुविस्तरम् ऋषिः सनातनश्चायम् यथा वेद तथा परः न वेद तस्मात् पृच्छत्वम् बहुकल्पविदाम् वरम् श्रुत्वेद्धम् नारदो वाक्यं कुमारस्य महात्मनः प्रणम्य विनयोपेदः सनातनमधा ब्रवीद नारद उवाच ब्रह्मन् पुराणविच्येष्ठज्ञानविज्ञानतत्पर पुराणानाम् विभागम् मे सा कल्ये नानुकीर्तय यस्मिन् श्रुते श्रुतम् सर्वम् ज्ञातम् कृते कृतम् वर्णाश्रमाचारधर्मम् साक्षात्कारमुपैष्यति कियन्ति च पुराणानि कियत् सङ्ख्यानि मानदः किं किमाख्यानयुक्तानि तद्वदस्व मम प्रभो च दुर्वर्ण्याश्रयानाव्रतादीनाम् कथास्तथा सृष्टिक्रमेण वंशानाम् कथा सम्यक् तत्तोऽद्धिको न चान्योऽस्ति पुराणाख्यानवित्प्रभो तस्मादाख्याहि मह्यम् त्वम् सर्वसन्देहभञ्चनम् सूत उवाच ततः सनातनो विप्रा श्रुत्वा नारदभाषितम् नारायणम् क्षणम् ध्यात्वा प्रोवाचाथ विदाम्बरः सनातन उवाच साधु साधु मुन्रेष्ठसलोकोपकारिका पुराण आख्यान विज्ञा ने मी तोभ्यं सोक्त ब्रह्मण पुरा मरीच्यादि ऋषिभ्यस्तु पुत्रस्नेहावृतात्मना एकदा ब्रह्मणपुत्रो मरीचिर्नाम विश्रुतः स्वाध्यायश्रुतसम्पन्नो वेदवेदागपारगः अगपा। उपसृत्य स्वपितरं ब्रह्मणं लोकभावनं प्रणम्यभक्त्या पप्रच्छ इदमेव मुनीश्वर पुराणाख्यानममलम् यत्त्वम् पृच्छसि मानद मरीचिरुवाच भगवन्देव देवेशलोकानाम् प्रभवाप्यय सर्वज्ञ सर्वकल्याणसर्वाध्यक्ष नमोऽस्तु दे पुराणबीजमाख्याहि मह्यम् शुश्रूषवेपिदः लक्षणम् च प्रमाणम् च संवक्लारं पृच्छकम् तथा ब्रह्मोवाच शृणुवत्स प्रवक्ष्यामि पुराणानां समुच्चयम् यस्मिन् ज्ञादे भवेत् ज्ञातं वाङ्मयं सचराचरम् पुराणमेकमेवासि सर्वकल्पेषु मानद चतुर्वर्गस्य बीजं च शतकोटिप्रविस्तरम् प्रवृत्तिस्सर्वशास्त्राणां पुराणादभवत्ततः कालेनाग्रहणम् दृष्ट्वा पुराणस्य महामतिः हरिर्व्यासस्वरूपेण जायते च युगे युगे चतुर्लक्षप्रमाणेन द्वापरे द्वापरे सदा तदष्टा दशधा दा कृत्वा भूर्लोके निर्दिशत्यपि अद्यापि देवलोके दुःशतकोडिप्रविस्तरम् अस्त्येव तस्य सारस्तु चतुर्लक्ष्येण वर्ण्यते ब्राह्मं पाद्मं वैष्णवं च वायवीयं तथैव च भागवतं आज्ञेयम् ज भविष्यम् जब्रह्म वैवर्तलिङ्गके वाराहं च तथा स्कान्दम् वामनम् कूर्म सञ्ज्ञकम् च गारुडम् तद्वत् ब्रह्माण्डाख्यमिति दृषट एकं कथानकं सूत्रं वक्तुः श्रोतुः समाह्वयं प्रवक्ष्यामि समासेन निशामय समाहिदः ब्रह्मं पुराणं तत्रादौ सर्वलोकहिताय वै व्यासेन वेदविदुषा समाख्यातं महात्मना तद्वै सर्वपुराणाग्र्यं धर्मकामार्थमोक्षदं नानाख्यानेधि साढ्यम् दशसाहस्रमुच्यते दे। देवानां च सुराणाम् च यत्रोत्पत्तिप्रकीर्तिता प्रजापदीनां च तथा दक्षादीनां मुनीश्वर ततो सूर्यस्य परमात्मनः वंशानुकीर्तनं पुण्यं महापादकनाशनम् यत्रावतारकधिथपरमानन्दरूपिणः श्रीमदो रामचन्द्रस्य च दुर्व्यूहावतारिणः ततश्च सोमवंशस्यं कीर्तनं यत्र वर्णितं कृष्णस्य जगदीशस्य चरितं कल्मषापहम् द्वीपानां चैव सर्वेषां वर्षाणां चाप्यशेषतः वर्णनं यत्र पादालस्वर्गाणां च प्रदृश्यते नरकाणां समाख्यानं सूर्यस्तुतिकथानकं पार्वत्याश्च तथा जन्मविवाहश्च निगद्यते दक्षाख्यानं तथा प्रोक्तमेकाम्रक्षेत्रवर्णनम् को वभागोऽयमुदितपुराणस्यास्य नारद अस्योत्तरे विभागे तु पुरुषोत्तमवर्णनं विस्तरेण समाख्यातं तीर्थयात्राविधानदः अत्रैव कृष्णचरितं विस्तरा समुदीरितं वर्णनं यमलोकस्य पितृश्राद्धविधिस्तदा वर्णाश्रमाणां धर्माश्च कीर्तिदा यत्र विस्तराद विष्णो धर्मयुगाख्यानं प्रलयस्य च वर्णनम् योगानां च समाख्यानं साङ्ख्यानां चापि वर्णनं ब्रह्मवादसमुद्देश्यपुराणस्य प्रशंसनम् एतद् ब्रह्मपुराणं तु भागद्वयसमन्वितं वर्णितं सर्वपापघ्नं सर्वसौख्यप्रदायकम् सुदशौनकसंवादं भुक्तिमुक्तिप्रदायकम् लिखित्वैतपुराणं यो वैशाख्यां हेम संयुतम् जलधेनुयुधं चा विभक्त्या दद्या द्विजातये पौराणिकाय सम्भूज्य वस्त्रभोज्य विभूषणैः न वश्येर्ब्रह्मणो लोके यः पदे शृणुयाद्वापि ब्राह्मानुक्रमणी द्विज सोऽपि सर्वपुराणस्य श्रोतु वक्तुफलं लभेत् शृणोति यः पुराणं तु ब्रह्मं सर्वं जिदेन्द्रियः हविष्यासी च चा नियमात् सलभेद्ब्रह्मणः पदम् किमत्र बहु नोक्ते न यद्यदिच्छति मानवः तत्सर्वं लभते वत्स पुराणस्यास्य कीर्तनात् इति श्रीबृहन्नारदीयपुराणे पूर्वभागे बृहदुपाख्याने चतुर्थपादे ब्राह्म पुराणेतिहासकथनम् नाम द्विनवतितमोऽध्यायः ओ oh.